अथ पञ्चदशोऽध्यायः श्रीभगवानुवाच ऊर्ध्वभूलम् अधशाखम् अश्वत्थम् प्रापुरौ व्ययम् छन्दांसि यस्य पर्णा वेद अधश्चो प्रसृता तस्य शाखाः गुणप्रवृद्धा विषयप्रबा अधश्च मूलानि अनुसन्ततानि कर्मानुबन्धीनि मनुष्यनो रूपमस्ये तथोपलभ्यते नान्तो न ना चादिः न च सम्प्रतिष्ठा अश्वत्थमेन सुविरूढमूलम् असङ्गशस्त्रेण दृढेन चित्वा ततः तत पदम् स्मिन् गता न निवर्तन्ति भूयत कमेव चाद्यम् सङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः द्वन्द्वैर्विमुक्ताः सुखदुःख सञ्ज्ञैः गच्छन्त्य मूढाः पदमौ व्ययम् तत् न तद्भासयते सूर्यो न पावकः यद्गत्वा न निवर्तम् ते तद्धाम मम ममैवां जीवलोके जीवभूतः सनातनः मनश्चानि इन्द्रियाणि प्रकृतिस्थानि कर्श्य ीरम् यदवाप्नोति यच्चाप्युत्थामतिश्वरः गृही त्वैतानि संयाति वायुः गन्धानि वाशयात् अधिष्ठाय मनश्चायम् दिशयान् उपसेव म् स्थितम् वापिनम् वा गुणान्वितम् विमूढानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः यतन्तोऽपि अकृतात्मा नो नैनम् पश्यन्ति अचेतसः दित्यगतम् तेजो जगद्भासयते अखिलम् यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धीमामचम् धारम्य गोजस पुषा चौषध सर्वा सोम भूत्वा रक अहम् वैश्वानरो भूत्वा प्राणिनाम् देहमाश्रित प्राणापानसमायुक्तः पचाव्यौनम् चतुर्विधम् सर्वस्य चाहम् हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनम् च वेदैश्च सर्वैः अहमेव वेद्यो वेदान्तकृत् वेदविदेवत्याम् विभौ पुरुषो लोके क्षरश्चाक्षर एव च क्षरः सर्वाणि भूतानि कूटस्थो अक्षर उच्यते पुरुषस्तु अन्यगा परमात्मेति उदाहृतः यो लोकत्रयम् आविश्य विभक्ति अव्ययः ईश्वरः अक्षरादि उत्तम अथस्ोके प्रथि पुषो सम्मूढो जानाति पुरुषोत्तमम् स सर्ववि भजति मा सर्वभावे या नघ ये बुद्ध बुद्धिमा सियात भारत ओम् तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः